हरि ओम् श्री सीतारामचन्द्राभ्य नमः अथ श्रीम अध्यात्म रामायणे अरण्यकाण्डे सप्तमः स्वर्गः श्रीमहादेव वाच अथ रामोऽपि तत् सर्वं ज्ञात्वा रावण चेष्टितम् उवाच सीतामेकान्ते शृणु जान रावणो भिक्षुरूपेण आगमिष्यति चेत् त्वं तु छायां तदाकारम् स्थापि तोटये विषये अग्नावसदृश्यरूपेण वर्षन्ति स्थ ममज्ञया रावणस्य वधान्ते माम् पूर्वभरेषुभि श्रुत्वा रामोदितं वाक्यं सापि तत्र तथा करोत् माया सीतां बहिः स्थाप्य स्वयं मन्तः नरे माया सीता तदा मृगम् माया विनिर्मितम् हसन्ती राममभ्यस्य प्रोवाच विनयान्विता पश्य राम मृगम् चित्रम् कानकम् रत्नभूषितम् विचित्रबिन्दुभिर्युक्तम् चरन्तम् न कुतो भयम् बद्ध्वा देहि मम क्रीडा मृगो भवतु सुन्दरः तथेति धनुरादाय गच्छन् रक्ष त्वम्मति यत्नेन सीतामत्प्राणवल्लभाम् मायिनः सन्ति विपिने रक्षसा घोरदर्शन अतोत्रा वहितसाधिम् रक्षसीतामनिन्दिताम् लक्ष्मणो राम माहेरम् देवायम् मृग रूपध मारिचोत्र न सन्देह एवं भूतो मृग कुतः श्रीराम यदि वारी चैवायम् तदाहन् मेन संचयः मृगश्चेदानयिष्यामि सीता विश्रम हेतवेः गमिष्यामि मृगम् बद्ध्वा ध्यानयिष्यामि सत्रः तन् प्रयत्नेन सन्तिथ सीता संरक्षणोद्यत इत्युक्त्वा प्रयो रामो माया मृगम् न माया यदाश्रयालोक मोहिनी जगता कृतिः निर्विकारश्चिदात्मापि पूर्णोऽपि मृगम् भक्तानुकंपी भगवान भगवान् इति सत्यं वचोहरिः कष्टम् सीता प्रियार्थाय जानन्नपि मृगम् ययो अन्यथा पूर्णकामस्य रामस्य विदितात्मनः मृगेण वा स्त्रिया वापि किम् कार्यम् परमात्मनः कदाचित् दृश्यते अभ्यासे क्षणम् धावति लीयते दृश्यते च ततो दूरात् एवम् राममपहरत् ततो रामोऽपि विज्ञाय राक्षसोऽयम् इति स्फुटम् विव्याध शर्मादाय राक्षसम् मृगरूपिणम् पपात रुदरा पास्योः मारीचः पूर्वरूपधु आहतोऽस्मि महाबाहु त्रा लक्ष्मण मान्द्रतम् इत्युक्त्वा रामवच रामवद्वाच पपात रुधिराशनः यन्नामाज्ञोऽपि मरणे स्मृत्वा तत् साम्यमाप्नुयात् किमुताग्रे हरिम् पश्यन् तेनैव नियतो सुरः तेज सर्वलोकस्य पश्यत है, देवा, केम केम है, है, राम मेहदेव विस्मय परमं ययु किम कृफ्वा किम प्राप्त पातक मुनिसक अथवा राघव से महिमा नाथ संचय राम बाणे संविध पूर्वमस्मर भयासम पितज गृह विकम चयत हृदि रामम् सदा अन्ते रामेणन्यत पश्यन् रामम् अवापसः द्विजो वा वापि पापी वा धार्मिकोऽपि वा त्यजन् कलैवरम् रामम् स्मृत्वा याति परम्बरम् इति तेनमाभ्यास्य ततो देवा दिवम् ययुः रामश्चिन्तयामासे म्रियमाणो सुराधमे हा लक्ष्मणेति मद्वाक्यम् अनुकुर्वन्न मार किम् श्रुत्वा मद्वाक्य मद्वाक्यसदृशम् वाक्यम् सीतापि किम् भवेत् इति चिन्ता परीतात्मा रामो दूरान्य वर्तत सीता तद्भाषितम् श्रुत्वा स्य दुरात्मनः भीताति दुःख संविघ्ना लक्ष्मणम् तिदम् अब्रवीत् गच्छ लक्ष्मण वेगेन भ्राता ते सुरपीडितः आ लक्ष्मणेति वचनम् गातुस्ते न शृणोषि किम् तामाह लक्ष्मणो देवी रामवाक्यं न तद्भवेत् यः देवी द्राक्षसो देवि म्रियमाणोऽ रामश्रैलोक्यमपीय वृद्धो नाशयति क्षणात् स दीन दीनवचनम् भाषते क्रुद्धा लक्ष्मणमालोक्य सीता बाष्पविलोचना साह लक्ष्मण दुर्बुद्धे गातव्यसनमिच्छसि प्रेषितो भरतेनैव रामनाशाभिकाङ्क्षिणा माम् नेतुम् आगतोऽसि त्वम् रामनाश उपस्थिते न प्राप्स्यसे तम् माम् अद्य पश्य प्राणान् जयाम्यहम् न जानातीदृशम् रामे स्वां भार्या हरिणोद्यतम् रामादन्यम् न स्पृशामि स्वाम् भरतमेव वा इत्युक्त्वा वध्यमाना सा स्वबाहुभ्याम् रुरोधः तत् श्रुत्वा लक्ष्मणकर्णौ पिधाय अतीव दुःखितः माम् एवम् भाषते चण्डी धिक्त्वा नाशमुपैषसि इत्युक्त्वा वनदेवीभ्यः समर्प्य जनकात्मजाम् ययो दुखाति संविग्नो, रामम् एव शनै शनै ततोन्दरम् समालोक्य रावणो भिक्षुवेशधृक् सीतास्मै पम्मगमत् रदण्डकमण्डल सीता तम् अवलोक्यासु नत्वा सम्पूज्य भक्तितः कन्दमूल फलादीनि दत्त्वा स्वागतमब्रवीत् मुने भुङ्क्वे फलादीनि विश्रमस्य यथा सुखम् इदानीमेव भर्तामे मे ध्यागमिष्यति ते प्रियम् करिष्यति विशेषेण तिष्ठ त्वम् भिक्षोवाच कं कमलपत्राक्षी कमलपत्राक्षि को वा भर्ता तव नघे किमर्थम् अत्र वासो वने राक्षस सेविते ब्रूहि भद्रे ततः सर्वम् सवृत्तान्तम् निवेदये सीतावाच अयोध्याधिपति श्रीमान् राजा दशरथो महान् तस्य ज्येष्ठ सुतो राम सर्वलक्षणलक्षितः तस्याहम् धर्मतः पत्नी सीता जनकनन्दिनी तस्य भ्राता कनीयाच लक्ष्मणा भ्रातृवत्तरः पितुराज्ञाम् पुरस्कृत्य दण्डके वस्तुमागतः चतुर्दश समासान्तु ज्ञातुमिच्छामि वे मे वदे भिक्षुवाच पदस्य तनयोऽहं तु रावणो राक्षसाधिपः तत् काम परितप्तोऽहम् त्वाम् नेतुम् पुरमागतः मनुवेशेण रामेण किं करिष्यसि माम्भज भुङ्क्व भोगन् मया साधम् त्यज श्रुत्वा तद्वचनम् सीता भीता किञ्चिदुवाच तम् भाषते मां तम् नाशमेष्यसि राघवात् आगमिष्यति रामोऽपि क्षणम् तिष्ठ सः अनुजः मां को दर्शयितुम् शक्तो हरेर्भार्यां शो यथा रामबाणीर्विभिन्नस्तम् पतिषयसि महीतले इति सीताव च श्रुत्वा रावणः क्रोधमूर्च्छितः स्वरूपम् दर्शयामासे महापार्वतसन्निभम् दशास्यम् विंशति भुजम् कालमेघ समद्युतिम् तद्धृष्ट्वा वनदेव्यश्च भूतानि च वितर्सु ततो विदार्य धरणिम् न खे उद्धृत्य बाहुभिः तोलयित्वा रथे क्षिप्त्वा ययोक्षिप्रम् विहाय स हारा महालक्ष्मणेति रुदन्ती जनकात्मजा भयोद्विघ्नमनादीना पश्यन्ति भुवमेव दृष्ट्वा तत्क्रन्दितं दीनम् सीताया पक्षि सत्तमः यतायुरुत्थितम् शीघ्रम् नगाघ्रातीक्ष्ण तुण्डकः तिष्ठ तिष्ठेति तम् प्राह को गच्छति ममाग्रतः मुषित्वा लोकनाथस्य भार्याम् शून्याध्वनालयात् शुनको मन्त्रपूतम् त्वम् पुरोढाशम् इव ध्वरे चूर्णयामास तद्रथम् वाहान् विभेदपादाभ्याम् चूर्णयिमायास तद्धनुः तथा परित्यज्य रावण खड्गमाधदे चिच्छेद पक्षो सामर्श पक्षिराजस्य धीमतः पपात किञ्चित् शेषेण प्राणेन भुवि पक्षिराट् पुनरन्यरथेनाशु सीता माय रावणः क्रोशन्ति राम रामेति त्रातारम नाधि हा राम हा जगन्नाथ मां न पश्यति दुःखितां रक्षसा नीयमानां स्वां भार्यां मोचय राघव हा लक्ष्मण महाभाग त्राहि मां पराधिनीं वाक्षरेण हतस्तं मे शन्तुमर्हसि देवर इत्येवम् घोषमानान् ताम् रामः गमनशङ्गया जगाम वायुवेगेन सीताम् आदाय सत्वरः विहायस स नीयमाना सीता पश्यदधोमुखी पर्वताग्रहे स्थितान् पञ्च वानरान् वारि जानन उत्तरीयाथ खण्डेन खण्डेन विमुच्य भरणादिकम् बद्ध्वा चिक्षे कथयन्त्रीति पर्वते ततः समुद्रम् उल्लङ्घ्य लङ्कां गत्वा रावणः सन्तपुरे रहस्येताम् अशोक विपिन क्षिपत् परिवृताम् मातृ बुद्ध्यान् न पालय कृशाति दीना परिकर्म वर्जिता दुःखेन शोषय वदनाति विवरा अ राम रामेति मरण सीता सीता राक्षसवृन्द मध्ये इति श्री अध्यात्मरामायणे उमामिश्रसंवादे अरण्यकाण्डे सप्तमः सर्गः श्रीसीतारामचन्द्रार्पणमस्तु